यत् लोके दृश्यण पृथिवीस तस्जन्म चूताप्य क्षंत्यं पुषेणेह सर्वापत्सुसुशोभने क्षमा हि जन्मचैव प्रकर्ति आकृष्टस्ताडितः क्रुद्धक्षमते यो बलीयसा यश्च नित्यञ्जितक्रोधो विद्वानुत्तमपूरुषः प्रभाववानपि नरस्तस्य लोकाः सनातनाः अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् गीता क्षमावता कृष्णे काश्यपेन महात्मना क्षमा धर्मक्षमा जानाति स क्षन्तुमर्हति क्षमा ब्रह्म क्षमा सत्यम् क्षमाभूतम् च भावि च क्षमा तपः क्षमा शौचम् क्षमयेदन्धृतम् जगत् अतियज्ञविदाल्लोकान् क्षमिणः प्राप्नुवन्ति च अतिब्रह्मविदाल्लोकानतिचापि तपस्विनाम् अन्ये वै यजुषाल्लोकाः कर्मिणामपरे तथा क्षमावताम् ब्रह्म लोके लोकाः परमपूजिताः क्षमा तेजस्विनाम् तेजः क्षमा ब्रह्मतपस्विनाम् क्षमा सत्यम् सत्यवताम् क्षमा यज्ञक्षमा क्षमः